वयम् चिन्तयित्वैव मुहूर्तादिव दृष्टवत्यो महाभागम् देवर्षिमुत नारदम् दृष्ट्वा देवर्षिममितद्युतिम् अभिवाद्य पार्थ स्थितास्म व्रीडिता उक्तवत्यो वयं श्रुत्वा तत्र यथा इदं वचनमब्रवीत् दक्षिणे सागरानुपे पञ्चतीर्थानि सन्ति वै पुण्यानि रमणीयानि तानि गच्छतमाचिरम् तत्राशुपुरुषम् व्याघ्रः पाण्डवे मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः तस्य सर्वा वयम् वीर श्रुत्वा वाक्यमिहागताः तदिदम् सत्यमेवाद्य मोक्षिताहम् त्वया नघ एतास्तु ममताः सख्यश्चतस्रोऽन्या जले श्रिताः कुरु कर्म शुभम् एताः सर्वा विमोक्षया उवाच ततस्ताः पाण्डव श्रेष्ठः विशाम्पते तस्माच्छापादीनात्मा मोक्षयामास वीर्यवान् उत्थाय तस्मात् प्रतिलभ्य तास्तदाप्सरसो राजन्न दृश्यन्त यथा पुरा तीर्थानि शोधयित्वा तु तथानुज्ञायताः प्रभुः चित्राङ्गदाम् पुनर्द्रष्टुम् तस्यामजनयत्पुत्रम् राजानम् बभ्रुवाहनम् तम् दृष्ट्वा पाण्डवो राजं चित्रवाहनमब्रवीत् चित्राङ्गदायाः शुल्कम् त्वम् गृहाण बभ्रुवाहनम् अनेन च भविष्यामि ऋणान्मुक्तो न राधिपा चित्राङ्गताम् पुनर्वात्यम् अब्रवीत् पाण्डुनन्दनः इह वैभवभद्रम् ते वर्धेथाभ्रुवाहनम् इन्द्रप्रस्थनिवासम् मे त्वम् तत्रागत्य रंस्यसि कुन्तीं युधिष्ठिरम् भीमम् भ्रातरौ मे आगत्य तत्र पश्येथ अन्यानपि च बान्धवान् बान्धवैः सहिताः सर्वैर्नन्दसे त्वमनिन्दिते धर्मे स्थितः सत्यधृतिः कौन्ते योऽथ युधिष्ठिरः जित्वा तु पृथिवीम् सर्वाम् राजसूयम् तरिष्यति तत्रागच्छन्ति राजानः पृथिव्या नृपसंहिताः बहूनि रत्नान्यादाय आगमिष्यति प्रयातासि चित्रवाहनसेवया द्रक्ष्यामि राजसूये त्वाम् पुत्रम् पालयमाशुचः बभ्रुवाहन मम प्राणो महीचरः तस्माद्भरस्वपुत्रम् वै पुरुषं वंशवर्धनम् चित्रवाहनदायादम् धर्मात् पौरवनन्दनम् पाण्डवानाम् प्रियम् पुत्रम् तस्मात् पालय सर्वदा विप्रयोगेन सन्तापम् मा कृथास्त्वमनिन्दिते चित्रादामेव मुक्त्वा गोकर्णमभितोऽगमत् आद्यम् यत्र पापोऽपि मनुजः प्राप्नोत्यभयदम् पदम् इति श्रीमहाभारते आदिपर्वणि अर्जुनवनवासपर्वणि अर्जुनतीर्थयात्रायां षोडशाधिकद्विशततमोऽध्यायः